सुक्तम हिण्यगर्भसुक्त श्रीगुभ्यो नम हरि ओ हिण्यगर्भसम भूतस्य भूत पतिरेक आसीत सदा आधार पृथ्वी दुते कस्में देवाय हिषा आधेम य आ आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः यस्य छायामृतं यस्य छाया मृत्योकस्मै हि देवाय हविष आविधेम यप्राणतो निमिशतो महित्वैक इन्द्राजा जगतो बभूव य ईशे ए अस्य द्विपदश्चतुष्पदः कस्मै ए देवाय विषा आविधेम यस्ये मे महित्वा यस्य समुद्रं रशय आशाहुः यस्ये माः प्रदिशो यस्य बाहू कस्मै ए देवाय हविषा येन दौरुग्रा पृथिवी च दुर्हायेन स्वतभितं येन नाकः योऽन्तरिच्छे रजसोभिमानः कस्मै हि देवाय हविषा आविधेम यं क्रन्दसि यत्राधिसूर उदितो विभाति कस्मै इदेवाय हविषा आ विधेम आपोऽह यदबृहते विश्वमायन् गर्भं दधा आ जनयन्तीन्द्रग्निं ततो देवानाम् समवर्तता सुरेकः कस्मै इदे देवाय हविषा आविदेव यश्चिद्दापो ॐ महिना पर्यपस् दक्ष दधा आजनयन्ती यज्ञं यो देवेष्वधि देव एक आसीत् कस्मै इ देवाय हविषा आविदेवा मानो ो हिंसिजनिताय पृथिव्यायो वा दिवम् सत्यधर्मा धर्वाजान यश्चापश्चन्द्रा बृहतीर्यजान कस्मै देवाय हविषा आविधेम प्रजा आपतेन विश्वा जातानि परिता यत्का आमास्ते मास्तेजुहुमस्तन्नो ओ अस्तु वयं सा आमा पतयोरयीणाम् ॐ शान्तिः शान्तिः शान्तिः हरिः ओ